श्रीलित अष्टोत्तरशतनामावळि ॐ ऐं ह्रीं श्रीं रजताचलशृङ्गाग्रमध्यस्थायै नमः हिमाचलमहावंशपावनाय नमः शङ्करार्दङ्गसौन्दर्यशरीरायै नमः लसन्मरकतस्वच्छविग्रहायै नमः महातिशयसौन्दर्यलावण्यायै नमः शशाङ्कशेखरप्राणवल्लभायै नमः सदा पञ्चदशात्मैक्यस्वरूपायै नमः वज्रमाणि ्यकटकिरीटाय नमः कस्तूरितिलकोल्लासनिटिलाय नमः भस्मरेकाङ्कितलसन्मस्तकायै नमः विकचाम्बोरुहदलोचनाय नमः शरच्चाम्पेयपुष्पावनासिकायै नमः लसत्काञ्चनताटाङ्कयुगलायै नमः कपोलायै नमः ताम्बूलपूरितस्मेरवदनाय नमः सुपक्व बीजरदनायै नमः कम्बुपूग समचाय खन्धराय नमः स्थूलमुक्त फलोदार सुहारायै नमः गिरीशभद्र माङ्गल्यमङ्गलायै नमः पद्मपाशाङ्कुशलसत्करब्जायै नमः पद्मकैरवमन्दार सुमालिन्यै नमः सुवर्णकुम्भयुग्माभसुकुचायै नमः रमणीय चुर्बा संयुक्ताय नम कनकांगदेयरभूषिताय नम बृहत्सौवर्ण सौंदर्यवसनायै नम बृहनीतंब विलसज्जघनाय नम सौभाग्य ृङ्गारमध्यमायै नमः दिव्यभूषणसन्दोहरञ्जितायै नमः पारिजातगुणाधिक्यपदाब्जायै नमः सुपद्मराग सङ्काश चरणायै नमः महापद्म, कामकोटिमहापद्मपीठस्थायै नमः नेत्रकुमुद, चन्द्रिकायै नमः सचारमर, सचारमरमावाणि विजितायै नमः भक्तरक्षणदाक्षिण्यकटक्षायै नमः भूतेशालिङ्गनोद्भूतपुलकाङ्गै नमः अनङ्गजनकापाङ्गवीक्षणायै नमः ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमः शचीमुख्यामरवधूसेवितायै नमः लीलाकल्पितब्रह्माण्डमण्डलायै नमः अमृतादिमहाशक्तिसंवृतायै नमः एकातपत्र साम्राज्यदायिकायै नमः शनकादिसमाराध्यपादुकायै नमः देवर्षिभिः स्तूयमान वैभवायै नमः कलशोद्भव दुर्वासपूजितायै नमः मत्भ वक् षक् वत्सलाय न चक्रराज महायंत्र महायध्यवर्ति नम चिदग्निकुण्डसम्भूत सुदेहाय नमः शशाङ्कखण्डसंयुक्तमकुटायै नमः मत्तहंस वधूमन्दगमनायै नमः वन्दारुजन सन्दोहवन्दितायै नमः अन्तर्मुक जननानन्द फलदायै नमः पतिव्रताङ्गनाभीष्टफलदायै नमः अव्याजकरुणापूर पूरितायै नमः नितांत सच्चिदानन्द संयुक्तायै नमः सहस्रसूर्यसंयुक्तप्रकाशायै नमः रत्नचिन्तामणिग्रहमध्यस्थायै नमः हानिवृद्धिगुणाधिक्यरहितायै नमः मध्यनिवासायै नमः जाग्रत स्वप्न जाग्रस्वस सुषिप्तना साक्षिभूत नम महापौ पापना विनाशि दुष्टीतिमहाजनाय नम समदुज प्रेरकाय नम समस्तर समस्तृद भूज नम अनाहतम पद्म मंदराय नम सहस्रार सरोजात वासितायै नमः पुनरावृत्तिरहितपुरस्तायै नमः वाणी गायत्री सन्नुतायै नमः रमाभूमि सुताराध्य पदाब्जायै नमः लोपा लोपामुद्रार्चित श्रीमच्चराणै नमः सहस्ररतिसौन्दर्यशरीरायै नमः भावनामात्रसन्तुष्टहृदयायै नमः सत्यसम्पूर्ण विज्ञानसिद्धिदायै श्रीलोचनकृतोल्लसफलदायै नमः श्रीसुधाब्धि मणिद्वीपमध्यगायै नमः दक्षाध्वरविनिर्भेदसाधनायै नमः श्रीनाथसोदरी भूतशोभितायै नमः चन्द्रशेखरभक्तार्तिभञ्जनाय नमः सर्वोपादी विनिर्मुक्तचैतन्यायै नमः नामपारायणाभीष्टफलदायै नमः सृष्टिस्थितिरोधानसङ्कल्पायै नमः श्रीषोडशाक्षरीमन्त्रमध्यगायै नमः नाद्य स्वयंभूत दिव्यमूर्त नम भक्त पिमुख्य विगाय नम मात्रमंडल संयुक्तलिताय नम भंडदैत्यमहासत्वनाशनाय नम क्रूरभण्ड शिरच्छेदनिपुणायै नमः धात्रच्युत सुराधीश सुखधायै नमः चण्डमुण्ड निशुम्बादिखण्डनायै नमः रक्ताक्ष रक्तजीवादि रक्तजीवादिशिक्षणायै नमः महिषासर दौर्वीर्यन अब्रकेश महोत्साहय नम महेशुक्तन तत् पराय नमः निजा भतृमुकाम्भोजचिन्तनायै नमः वृषभध्वजविज्ञानभावनायै नमः जन्ममृत्युजलारोगभञ्जनाय नमः विधेयमुक्तविज्ञानसिद्धि तिधायै नमः कामक्रोधादिषड्वर्गनाशनायै नमः राजराजार्चितपदसरोय नमः सर्ववेदान्तसंसिद्धसुतत्वायै नमः श्री श्रीवीरभक्तविज्ञानविधानायै नमः अशेषदुष्टधनुजसूदनाय नमः साक्षात् श्री दक्षिणामूर्तिमनोज्ञायै नमः संपूज्य महिमायै नमः दक्षप्रजापति दक्षप्रजापतिसुतवेशाढ्यायै नमः समबाणेक्षु कोदण्डमण्डितायै नमः नित्ययौवन माङ्गल्यमङ्गलायै नमः महादेव समायुक्तशरीरायै नमः महादेव महादेवरतौत्सुक्य महादेव्यै नमः श्रीललित अष्टोत्तरशतनामावलिसम्पूर्णम्